रधरम् वृष्टम् शशिवर्णम् चतुर्भुजम् रथम् नवतनम् ध्यायेत् सर्वविघ्नापशान्तये यस्य विरतवक्त्राद्याः पारिषद्याः परः शतम् विघ्नम् निख्णन् निघ्नन्ति सततम् विश्वक्सेनम् तमाश्रये वसिष्ठमप्तारम् शक्तेः पौत्रमकल्मषम् पराशत्मजम्बन्ते सुखतातम् तपोनिधिम् व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः प्रणो देवी, देवी सरस्वती वाजे फर्वाजिनीवती तैत्तदीयसंहितान्तर्गत कृष्णयजुर्वेदसंहिता प्रथमकाण्डप्रारम्भः ॐ श्रीगुरुभ्यो नमः हरिः ओ गणानाम् त्वा गणपतिकम् भवामहे कविम् कलीनामुपमश्रवस्कम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणः प्रदानशृण्वन्भिः शीरसादनम् ॐ महागणपतवे नमः ज त्वा गायवस्थोपायवस्थ देवो वः सविता प्रार्थयतु स्वेष्ठतमाय कर्मण आप्यायध्वमभ्ययादेव भागवो रुजस्वदे पजस्वदे त्वे यजमानस्य पशोऽन् पाहि यज्ञस्य घोषदसि प्रत्यष्टकुं रक्षः प्रत्यष्टारः प्रेयमगाधिष न बर्हिरच्छमनुना कृता स्वधयाभिष्टातावयः पुरस्ता देवेभ्यो जिष्टमिह बर्हिरासदेवानाम्ोत्तमसि वर्षवर्धमसि देवबरिहर्मा त्वान्वङ्मातिर्यक्पर्वते राध्यासमा ृथिव्याभृदा त्वा शम्भरास्नाधीन्द्राण्ये सन्नहनं भूषाते ग्रन्थिं ग्रच्छमास्थादिन्द्रस्य त्वा बाहुभ्यामुद्यक्षे बृहस्पते ्युर्बन्धरे क्षमन्विहिदेवङ्गममसि शुम्भम् देव्याय विश्वायुः सा विश्वव्यथा सा विश्वकर्मा सम्प्रच्छर्धमृताबलेर्मधुमत्तमा मन्त्राधनस्य सातगे सोमेनत्वा तेन्द्रायदधिविष्णो हव्यगम् रक्षस्वा कर्मणेवान् देवेभ्यश्च गेयम् वेदायत्वा प्रत्युष्टकुम् रक्ष प्रत्युष्टानादयोधोरविधोर्वधोर्वन् अन्धोर्वदयस्मान्धोर्वविदन्धोर्वयम् मित्रश्चत्वा चक्षुषा प्रेक्षे माधे मां विषमुरुवाज देवश्चत्वादृप्रसवेश्विना बाहुभ्याम् म्भेश्व <speaking> नरञ्जोदृम् <in foreign language> ेवो हः सभितोत्पुनात्सिद्रेण पवित्रेणवसोऽ सूर्यश्च रश्मिभिपो देवीरग्रे भुवोऽग्रे भुवोऽग्रजिम यज्ञयनाग्रे यज्ञपतिन्धत्तयुष्पानिन्द्रो वृणेतवृद्रतोर्ये देव्याय कर्मणे देवयज्ञाया अवधूतकुं रक्षोऽवधूता राधयो दित्यागसि प्रदित्वा पृथिवीवेशवनस्पत्यं प्रदित्वा दित्याग्ने त्वग्ने विसर्जनं देववीतये गन्नान्यत्रिरसि वानस्पत्यस्सहितं देवेभ्यो हव्य श्वे जमावदर्जमावदद्युमद्वरदमयम् सङ्घारम्प्रतिपर्णवद्धम् वेत्तु पराबोधुम् रक्षः पराभूता अराजयो रक्षाम् भागोदि वायुर्वा देवो वः स पिता प्रति गृह्णातु अवधोदकम् नक्षोऽवधोदारादयोदित्या स्वगति प्रथित्वा पृथिवीवे त्वदिवस्कम् भजरति प्रथित्वादित्या त्वग् धिषणाधिपर्वत्या प्रदित्वा दिवस्कम् भजर्वेत् धिषणाधिपार्वदे प्रदित्वा पर्वजर्वे तु देवस्य त्वादय प्रभवे श्रीमा बाहुभ्याः पोष्णा पामि धान्यमसिधिमिषि देवान् प्राणायत्वा प्राणायत्वा भ्यानायत्वाभिर्भ्यामनप्रतिदिमायुषेधान् देवो वत्सपिता हिरण्यपाणि प्रतिगृह्णातु धिर्ब्रह्म गच्छापाग्नेमादन्द्रजातकम् श्रेधादयभयजम्बनिर्गद्धकम् रक्षा निर्दग्धारादया दुर्वमधिरधिरेन्द्रगम् हा यदृकम् ह प्रजान्दृकम् न्द्रिगम् हजक्षर्दृगम् हश्रोत्रन्द्रियम् हजजातानस्मै यजमानायवर्यो हधर्मासिषोदृगम् हयोरिन्द्रिगम् प्रजान्द्रिगम् हत जातानस्मै यजमानायवर्यो हग्रस्थप्रजामस्मैरयमस्मैलजातानस्मै यजमानायवर्यो हभृगो नामङ्ग्यध्वयानि धर्मे कपालान्विव चिन्वन्ति वेधसः ष्णस्तान्यनिर्व्रतरीन्द्रभाजो विमुञ्चदा संवपामिषमापो अभिरग्मदसमोषसयोरसेन सगुम् रेवगदेभ्यर्मधुमतेर्मधुमतेभिः सृज्यमद्भ्यः परिप्रजाताच्छद्भञ्जनयत्यै स्वाथ्यग्नेषायुगप्रथ स्पोरुते यज्ञपति प्रथ तान्त्वम् गृह्णे स्वान्तरितम् रक्षोन्दरितारादयो देवस्तादिराश्रवयसपरिष्ठे अधिनागेग्निष्ठे तमपम् मातिधागग्ने हव्यगम् रक्षस्व सम्ब्रह्मणा वृक्षस्वैकदाय स्वाहा द्विधाय स्वाहा त्रिदाय स्वाहा आदध इन्द्रस्य बाहुलसि दक्षिणः सहस्रभृष्टिः शतते जायुरसि पृथिवी देवै जन्योषध्यास्ते मो न माहि गुम् दिशमपहतो रल पृथिम् व्रजम् गच्छ गोस्थानम् वर्षतु ते योर्वदेव तमितः परमस्याम् पृथिव्यै देव वैदन्यै व्रजं गच्छगोस्थानं वर्षतु ते व्यो प्रधानदेवदः परमस्याम् वरावदिशते न पाशये यो सान्द्रेन्द्रभयम् दृष्मस्तमतो मा वो स्मान् द्वेष्मस्तमतो मामो गदरुस्ते दिवम्भस्त्वापरि गृह्णन्तु गायत्रेण छन्दसा रुद्रा स्वा परिगृह्णन्तु त्रेश्व न छन्दसा दिव्या स्वापरि गृह्णन्तु जागते न छन्दसा देवस्व च विदुःसवे कर्म कृण्वन्ति वेदसृतमश्रुत सर नमः श्रुतश्रीरसि धा अति स्वधा अस्य पुरा क्रूरस्य विसर्वा विलक्षन्नुदाय पृथिवीञ्जेरदाुर्याभैरयञ्चन्द्रमधिपधा भित्तान्धीराधो अनुदृष्ट यजन्ते प्रत्यष्टकं रक्ष प्रत्यष्टादयो हस्ते तिष्ठ न तेजसा निष्ठपामि गोष्ठम् मा निर्नृक्षम् वाचिनन्त्वाथपत्रसाहकम् सम्माचम् प्राणम् चक्षुश्रोत्रम् प्रजाय्यानिम् मा निर्नक्षम् वाजिने त्वाथ पत्रसाहीगुम् सम्मानादौ अग्नेरणम् व्रता भूत्वा सन्नके सुकृतायकम् सुप्रजलस्त्वावयकुम् सुपत्रेरुपसेति वा अग्ने सपत्प्रतम् फनवलभ्यासो अदाराभ्यम् इमम् विश्याभिवरुणस्य पाशंयमपध्रेदसविता सुकेतः धातुश्च योनौ सुकृतस्य लोके स्योऽम् मे सह पत्या करोमि समायुषा सम्प्रजया समग्ने वर्च सा पुनः समात्मा तनुवाम महीनाम् पयोस्यो धातुम् रसस्तस्य ते क्षीयमाणस्य निर्वपामि महीनाम् पयोस्योकुम् रसोऽदभ्येन त्वा चक्षुषाव प्रजास्त्वाय तेजोधितेजोनुप्रेग्निर्ते तेजो माविनेजग्ने जग्वासि शुभो देवानाम् धाम् ने धाम् ने देवेभ्ययजुषे यजुषे भव सुप्रवधिभ्यो ज्योतिदेवो अस्य विगोत् पुनः छिद्रेण पवित्रेण वसात् सूर्यश्च रश्मिभिः शुक्रन्त्वा शुक्राभ्याम् धाम् देवे भ्यो यजुषे यजुषे गृह्णामि ज्योतिस्त्वा ज्योतिष्यर्तिस्त्वार्तिषि धाम् ने यजुषे यजुषे कृष्णास्याचरे स्वाग्नयेत्त्वा स्वाहा वेदिरधिपरिहिते त्वा स्वाहा बर्हिरतिसुभ्य स्वा स्वाहा दिवे त्वारक्षाय त्वा पृथिव्यै त्वा स्वधा पितृभ्यो भव परिषद्भ्य ऊर्जा पृथिवीम् गच्छत विष्णास्तपास्योर्णामृदन्त्वा तृणामि स्वासस्थम् देवेभ्यो गन् सर्वादि विश्वावसुर्विश्व स्वादेशतो यजमानस्य परिधिडगीडित इन्द्रस्य बाहुरति दक्षिणा यजमानस्य परिधिडगीडितो मित्रावरुणो त्वत्तरतः परिधत्ता ध्रुवेण धर्मी सूर्यस्त्वा पुरस्ता पादुकस्यामि यन्त्रमादित्या नागम् सदशचीतजुहोरुपभृद्भ्रुवादिभृताम्ना प्रिये न प्रिये सदशचीतैतासदान् सृतस्य लोकेता विष्वा पाहि पाहि यज्ञम् पाहि यज्ञपतिम् पाहि माय यज्ञरियम् भुवनमधिप्रथस्ताग्नेयष्टविदम् े यज्ञ स्वायदिदेव यज्ञाया उपभृते हि देव, दे देव स्वायजिदेव दे यज्ञाया अग्ना विष्णो बाभाववक्रमिषं विजिहा सन्त्राप्तं लोकं मे लोककृतो गृणतं विष्णोस्थानमसीत इन्द्रोऽ्यायतमारभ्योऽशमः यज्ञो यज्ञपतेरिन्द्राभा स्वाहा बृहद्भाः पारिवाहाग्ने दुश्चरिता मासुचरिते मासु चरिते भजमखस्य शिराधिसञ्ज्योतिषा ज्योतिरन्ता वाजस्य माप्रथमेणो ग्राभेणोदर्ग्रभीर अथ समर्नागुम् इन्द्रो मे निग्राभेणाधरागुम् मकः उद्ग्राभम् च निग्राभम् च ब्रह्म असाधपत्नानिन्द्राग्निमेव शोचेनान्यस्यता वसोभ्यस्त्वा रुद्रेऽभ्यस्त्वाधित्येभ्यस्त्वात्र गुम्रनाभियन्तो वजः प्रजायो निम्मानिर्मृक्षमाप्यायन्ता मा वोषधयो मरुताम् पृषतय स्थदिमम् गच्छततो वृष्टिमेदय आयुष्पाहग्नेऽस्यायुर्मे पाहि चक्षुष्पाहग्नेऽसि चक्षुर्मे पाहि ध्रुपाधिजम् परिधिम् पर्यधप्था अग्ने, अग्ने, अग्ने देवाणिभिर्वीयमानः न्तजोषम्भरामिने देशत्वदपचेतजातै यज्ञस्य पाथमुपसमितश्रावभागाश्चेता बृहन्त प्रस्थयेष्टापर्गिरश्च देवा इमाम्बुविष्प घृणन्त आसद्यास्मिन् वामपन्नगृहस्य सदशिशादयामि सुम्नाय सुम्नि शुम्ने माधत्तं धुरि धुर्योपादमग्ने तद्धा योशीत पाहि मा यदि वः पाहि प्रथत्यै पाहि दुरिष्ट्यै पाहिदुरद्मन्यै पाहि इमन्नो देवदेवे यज्ञ वा स्वाहा वाचि वादेधाः उभावामिन्द्राघ्नी आहुवद्भ्या उभाराधतः सहमादयभ्यैः उभा दाताराभिषागम् रजेनामुभावाजस्य दातयेभुदेव अश्वपटुम् विभो ऋतावत्तरा वाम् विजावा तुतवाघा स्यालात् अथ सोमस्य प्रयति युवभ्यामिन्द्राघ्ने इन्द्राग्नेरहतिम् पुरो राजपत्नीरथोऽनुतम् साकमेकेन कर्मणा सुजन्मस्तो मन्नवजातमध्येन्द्राग्नेरमित्रहणाजुषेथाहि वागुम् शुभवाचो भवेमिता वाचगम् सद्य उषतेथेष्ठपशस्पथेदथन्नवाचसादरे धिये पोषन्वयुज्महि अथस्पथः परिपतिम्बजस्या काव्येन कृतो अभ्याननर्कम् स नोराधश्चन्द्राग्राभिजम् धियगुंसी रथा प्रपोष क्षेत्रस्य पतिनाभयगम् हिदेने जयामसि गामश्वम् पोषहितनामृढा क्षेत्रस्य पदे वधुमन्त्रोर्मिन्धे रवयो अस्मात् सूक्ष्मा वधुश्च्युतम् घृतनि वसुपोदस्य नृणयन्तु अर्पेणसुपथारादे अस्मान् विश्वानि देवमयुनानि विद्वान् योऽध्यस्मज्जुः राणवेनो भूयिष्ठान्ते नवभुक्तिम् विधेम आदेवानामपिपन्थामजन्मयच्छक्रवामतदनुप्रबोढुम् अग्निर्विद्वान् स यजासो अध्वरान् सर्तोन् कल्पयाति यद्वाहिष्ठन्तरे विभावसो मयि मत्पद्वयस्त्वजा उदीरते अग्ने त्वम् पादयानव्यस्मान्भिरदि दुर्गाणि विश्वा ओश्च वृक्षे बहुलानपुर्वीभवातो त्वमाग्ने व्रतमासि देव आमर्थेष्वा तै यज्ञेष्वेद्यः यद्वो वयम् प्रविनाम व्रतानि विदुषान् द्रेव अपि दुष्टरातः अग्रष्टर्विश्वणादिविद्वार्य देवागमृतभिः कल्पयाति ओ, ओ। ीवसे दीर्घा हिपायवर्चो ग्रस्पसि गंसीर्देव श्रुरेतानि प्रवपे स्वस्त्युत्तराण्योऽस्मान् मातरशन्धन्तभृतेन नृषभव पुनन्त विश्वमस्पप्रवहन्त हि प्रमुदाभ्यस्य चिराभूतये विशोरस्य ो मयि धेहिभृत्तस्य घनेनिकासिष्पाधिचक्षुर्मे प्रदिष्ट्वा पुनाद् वाक्प्रदिष्पा पुना देवस्त्वा दविता पुनात्त्वच्छिद्रेण पवित्रेण सौर्यस्य भवित्र पवित्रेण यस्मेकं पुने यमावो देवादयी महेशस्य धर्वाणोऽद्वो देवासाघुरे हवामह इन्द्राग्ने द्यावापृथिवी आपवोषधे स्तन् देक्षाणामधिपति रसे हवासन्तम् पाहे आगोत्यै प्रिजे ज्ञय स्वाहा मेधायै मनसे ज्ञय स्वाहा दीक्षायै तपसे स्वाहा सरस्वत्यै गोष्णे स्वाहापो देवैर्बृहतेर्विश्वशम्भुव ज्ञावापृथिवी कुर्वन्तरिक्षं बृहस्पदन्नो हविषा वृधातु स्वाहा विश्वे देवस्य ने <Sit> ्युम्नं वृणीत पुष्यते स्वाहसावयो शिल्पे शस्त्रे वा रभेदेवापाथमास्य यज्ञस्योदृजि मान्धिमानस्तरेतुं दक्षं वरुणजगुं शशाधिजयाधि विश्वादुरितातरे वसुधर्माणवधिरावगुं रुहे मोर्गस्याङ्गिरस्योर्णं व्रदाोर्जं मे यक्षपाहि मा माहि ष्णाः शर्माधिशर्म यजमानस्य शर्म मे गच्छ नक्षत्राणाम् मादे काशः पाहेन्द्रस्य योनिरधि मा पाहि गंसे कृष्ये त्वा तु तस्यानेतु व्यक्पना यज्ञम् वातारभे दैवीन्धियम् वरामहे सुवृणी कामभिष्ट एवज्ञवाहतगुंसुपादा नो असद्वशे ये देवामनो जाता मनो युजः सुदक्षा दक्षपितारस्तेन पान्तु तेनो वन्तुते भ्योनमस्ते भस्माग्ने त्वकुम् सुरागि भयगुम् सुमन्त्रिमहिपायनः स्वस्तये प्रबुधेनः पुनर्दः समाग्ने प्रतपासि देवामर्त्येष्व संयज्ञेष्वेभ्यः श्वे देवाभिमावृद्धन् पोषा सन्न्यासो मो राधता देवस्वपितावसो वसुधापारास्वे यत्सो मा भोज भोत्या विराधिमा हवायुषा चन्द्रमधि मम भोगाय भव वस्त्रमधि मम भोगाय त्वा वरुणाय त्वा नित्ये त्वा रुद्राय त्वा देवी रापो अपान्नपाद्य भोर्मेहविष्यवान्मजिन्तमस्तम् भोमावक्रमिषमच्छिन्दन्तं त्वं पृथिव्या अनुगेशं भद्रादभिश्रेजः प्रे बृहस्पतिः पुरगेताते अस्पक्षेमवस्य वदा पृथिव्या आदेशत्रोन्क्रमि ेवयजदम् पृथिव्या विश्वे देवा यजुषन्तपूर्वरिक्सामाभ्याम् यजुषा सन्तरन्तो रायः स्पोषेण समिषामदेवा यन्ते शुक्रतनो हृदम् वर्चस्तजातम् भवभ्राजम् गच्छता मनसाजुष्टा विष्णवेतस्यास्ते सत्यतमदः प्रथमे वाचो यन्त्रमसी यस्वाः शुक्रमस्य मृतमसि वैश्वदेवगमहविः सौर्यस्य चक्षुरारुहमग्ने रक्षणकणे निजेतसे भीयसे भ्राजमानो विपस्थिताधिरसि क्षत्रिया श्रीरस्य भगतस्येष्मेता न सुप्राचेशु प्रतीभव मित्रस्त्वा प्रतिबध्नात् गोषाध्वनपायाध्यक्षा जानत्वा माता पण्यतामलपिताय भ्राता सभ्यो न सखासयो शादेव देवमच्चेदीन्द्रायथो मतुम् रुद्रस्त्वावर्तयतु मित्रस्य पथा स्वस्ति सोपदखा पुनरेहित हरय्या あ रुद्रास्यतिरस्यादित्यासि शुक्रासि गन्दादि बृहस्पतित्वारन्वतुरा पृथिव्या स्वामूर्ध्वनादिघर्मिभयजनगिरायाः पदे स्वाहा परिलिखितं रक्षः परिलिखिताराधय इदमः रक्षस देवा अपि ग्रन्था विजयोस्मान् प्रियञ्च वयन्स्म इदमस्य देवा अपि ग्रन्थान्यस्मै रायस्त्वे रायस्त्वते रायः रा सन्दे रा विदेव्योर्वश्यापश्यस्त्वत्पष्टे मति तेतपेयतुलेतारेतो दधानाभीयम् विधेयत सन्तृशिमाहगम्भायस्पोषेण वियोषम् अगुंसुदा चंस पृच्छताम् परुषा परुर्गन्धस्ते कामवधुमदात्योऽसि शुक्रस्ते त्रेमवितारमोन्या कविः क्रतुमर्चामि सत्यसवदुंसप्रिय मनिमोयस्यापदेर्था अधिभ्युदक्षवे मनिरन्यपानिरविमेत सकृतः कृपा सुवः प्रजाभ्यस्त्वा प्राणायत्वा ज्ञानायत्वा प्रजास्तमः प्राणेः प्रजास्त्वामः प्राणन्तो सोमन्द्रे क्रीणाम्योर्जस्पन्दं वयस्पन्दं वीर्यावन्तमभिमादिशाहगं शुक्रन्द्रे शुक्रेण क्रीणामि चन्द्रं चन्द्रेणामुत ममुतेन संयत्रे गोरस्मे चन्द्राणि तपदस्तनोरथे प्रजापतेर्वर्णस्तस्यास्ते सहस्तपो पुष्यमेण वधुना क्रीणाम्यस्मै देवं धर्मयि देवाय श्रयन्तामस्म्य जोज सोम विक्रयिणे तमो मित्रो ने हि सुमित्रधायिन्द्रस्यो मामिष दक्षिणमुशन्सन्तज्ञस्यो नस्योऽनग्रस्वानभ्राजाभारे बम्भारे हस्तसु हस्तकृशाेदेव सोमक्रयणस्ता रक्षद्भम् मा वोदभन् उदायुषा स्वायुषो दोषधेदागुम् रथेन पर्यन्यस्यमृता कुर्वन्तरिक्षमन् वृक्ष्यदित्याभ्रान्तरिक्षमोटव्या आसीत् विश्वेतानि वरुणस्य व्रतान्तरिक्षन्तग्न्विधोर्यमदधात् स्वद्राधिकं जातवेदं देवम् श्वायशूर्यम् उस्रावेदम् धूरुटाः वरश्रूरहणौ ब्रह्मचोदनौ वरुणस्य स्कम्भनमति वरुणस्य स्कम्भदनमति प्रत्यस्तो वरुणस्य पाशः त्यवस्त्वभुवस्पदे विश्वान्यमात्त्वा परिबलेऽपि जन्मात्त्वा परिपन्थिनापि धन्मा त्वामृताघाय वो मागन्धर्वा विश्वावसुराधच्छे न भूत्वा परापदयजमानस्य नो गृहे दे देवैः सर्गस्कृतं यजमानस्य स्वस्त्यजन्यस्य वि पन्थाभस्म स्वस्ति कामनेहसं मित्रस्य वरुणस्य चक्षसे महो देवाय शतकुंसपर्यदूरदृशे देवजाताय केतवे दिवस्पुत्राय सौर्याय शगुंशतवरुणस्य स्कम्भ नमसि वरुणस्य स्कम्भमस्य उन्मुक्तो वरुणस्य वासः ग्नेरादिक्ष्यवधि विष्णवेत्त्वा सोमस्यादित्यवधि विष्णवेत्त्वादिचे राधिक्ष्यवधि विष्णवेत्त्वाग्णेत्त्वा राय स्पोषदा विण्णे विष्णवेत् त्यासनासी न वरुणो वा देवानागुं सख्यान् वा देवानामपशच्चिष्मस्यापदयेत्त्वा गृह्णामि परिपदयेत् त्वा गृह्णामि तनो ने त्वा गृह्णामि शाक्वराय त्वा गृह्णामिष्ठाय त्वा गृह्णाम्यनाधिष्ठमस्य नाधिष्ठ्यं देवानाभोजोऽभिषस्ति वा हस्तवस्पतिरञ्जसा सत्यमुपगेतम् विजयमासाः पुंसुरपुंसते देव सोमाप्यायता इन्द्रायै कथनमिदातुभ्यमिन्द्रप्यायतामा त्वमिन्द्रायप्यायस्वाप्यायसखे संज्ञा मेधया स्विते नमो दिवे नमः पृथिव्याग्ने व्रतपदे ं व्रतानां व्रतपतिरसिजा मम धनो रेषादात्वनो हृजगुंसामयि सहनो व्रतपते व्रतिना व्रतारिजाते अग्ने रुद्रिजा तनो त्रया रात्रे स्वाहा याते अग्नेयाशया रजाशया हराशया धनोर्वरिकृय क्वरेष्ठाग्रं वज अपापथेन् द्वेषं above the gaspah विप्राय नेमेषित्राय नेमेऽस्यवतान्मानाधितमवतान्नाम्यधितं विदेर्नभो नामाग्नेऽङ्गिरोस्याम् पृथिव्यामस्यायुजानाम् न हृदयत्तेना धृष्टन्नाम यज्ञयन्ते न देवेभ्य शुम्भस्वेन्द्रघोषस्त्वावध्य पुरस्ता पादमनोजवा स्वामिभिर्दक्षिणदः पाद प्रदेतास्त्वा रुद्रे पश्चात्पाद विश्वकर्मा स्वादित्यैरुत्तरदपाद स्वाह जिगुम्भेरतिगु प्रजावस्वाहा जिगुम्भेरतिरागस्पो शवने स्वाहा जिगुम्भेरस्यादित्यवने स्वाहा जिगुम्भेरस्यावहदेवान् देवयते यजमानाय स्वाहा भूते दृग्म्भान् दृगम्भाग्नेभस्वास्यग्नेः पुरेशमति इञ्जदेवन उतयुञ्जदेप्रा विप्रस्य बृहतो विपष्टितः विहोत्रादेवयुनाविदेवजन्मही देवस्य दविदः परिष्पतिः सुभागेवदुर्यागम् आवदेव श्रुतो देवेष्वाघोवेधावानो वेदो जायनः कर्म्यायगम् सर्वे न जैवामयो बहू नाम सद्वशी विचक्रमे त्रेधानिदधे पदम् समूढमस्य पागुम् सुरजिरावतीथे नवदेभूतगुम् भूयवसि निनवेशस्ये यस्कभ्राग्धारपृथिवी अभितो मयूखै ये प्रयतमध्वरम् कल्पयन्ति ओ द्वम् यज्ञम् प्रयदम् मारे पृथिव्या दिवो वा विष्णुबुध वा पृथिव्या महो वा विष्णुबुधभान्तरिक्षाध्वस्तव पुनस्तवभरपसव्येया प्रयच्छदक्षिणादोदव्या गम् वीर्यानि प्रमोजञ्जः पार्थिवारिमिममे रजागुम् श्रियास्त्रभादुत्तरगुम् तजस्थम् विचक्रपालस्त्रे धोरुगायो विष्णो नराटमधि विष्णु पृष्ठमधि विष्णोष्णे स्थ विष्णो स्योरधिविष्णा द्रुरमधि वैष्णवमधि विष्णवे त्वा ीर्णपथे व्याधिराजेवामपादुण्ष्वेव न प्रथिविन्द्रो नानास्तादिविध्यरक्षतस्तपिष्ठैः भ्रमास आश्रुजापगन्त्यनस्पृतसोऽशुजानः तभोगश्चे जक्त्वापङ्गानसृजविश्वगुल्काः प्रतिस्पशो विषजतोऽन्यतमो भवायुर्विशो अस्यादः यो नो दूरे अभवम् सो योन्त्यग् व्यधिरा प्रत्यादमश्मण्यमित्रागम् वोषदाचिग्महेते यो नाराजकम् समिधानशक्ते नेचालम्परम् प्रतिविध्याद्यस्पदामिष्णृणुष्पथेव्यान्ये अपस्थिरातमहितृजूनाम् जा जामिमजामिशत्रून् सुमदेशमिष्ठले ब्रह्मणे धातुमैरत् विश्वान्यस्मै सुलिनानि राजो द्युम्नान्यो विदुरो अभिद्योत् तेनस्तु सुभगः सुतानुजस्वा नित्येन हविधाय मुग्धैः पिप्प्रेषति स्वायुषुरो विश्वेदस्मै श्रुतिनाशा सुदृष्टिः अर्जाविशर्वाक्सन्ते वाता जलताभिजङ्गेः सुरथा मर्जये मा स्मै भव चितः सखाय स्थिक्षमारुढग् महोरुजाविबन्धुदावजोभिस्तन्मा विदर्गोतमातन्विजाय तन्न अस्य मजलस्य निर्जिहोतरिजविष्ठदुक्रतोदमूनाः अश्वप्रजस्तरणयः सुशेवातन्दाजो विताश्रमिष्ठाः ते वायवयम् जो विषर्द्या ज्ञेतवनःपान्त्वमूना ये पायवो वाम देयन्ते अज्ञे पश्यन्तो अन्धन्तु हितादरक्षन् रक्षताम् सु विश्ववेदालिप्सन्तो नाथ जुः पया भयगुंसन्न्यस्तवप्रणेत्यस्यान् उभातगुंसा दूषय सत्यता तेन स्थिजाकृनश्च्यश्रयाण अयाते अग्ने समिधा विधेमप्रतिस्तोमगुम् शस्यमानम् ग्रभाय न हाशो रक्षसः पाक्यस्मान् द्रुवो निदो मित्रमहो अवद्यात् रक्षोहणम् वाजिनमादिघर्मम् प्रतिष्ठमुपयाभिशर्मा सुशानिकृभिः समिद्धनोदिवातरिणः पादुनक्तम् विज्योतिरामृगताभाग्निराविर्विश्वानिकृते महित्वा प्रा देवेऽर्मायाः सहते दुरे वा शिषी देवशृङ्गे रक्षते दे विनिक्षे पुरस्वानाथो दिविदन्त्वग्ने अस्ति यज्ञमायुधा रक्षते हन्तौ मदे किलस्य प्रवृतन्ति भावा न परिबाधो अदेवी ेवस्य पादपित प्रसवेस्मिन् भागुभ्याः ओष्णो हस्तार परिणशिम् रक्ष परिणशिदा राधय इद भागम् रक्षत देहापि गन्ताभिन् वैष्टियञ्च वयन्तेष्म इदमस्य देहा अपि गन्तामि भिवेत् त्वान्तरिक्षाय सदनो यवोऽसि यवया स्पद्वेषो यवया राधेणागं सदनमस्ति भानान्तरिक्षं प्रणपधिवेन्द्रकं ह्युगानस्त्वा मारुतो धर्मना वरुणयाध्रुवेण धर्मणा ब्रह्मवनिं त्वा क्षत्रवनिगं स्वप्रजावनिगं रायस्तोशवनिं वर्यो हा विब्रह्मदृग् ्या वापृथिवी आवृणयथामिन्द्रस्य सतोऽसि विश्वजनस्य छायापरित्वा गिर्मणा गिरयिमा भवन्त विश्वसा वृद्धा यद्धया जुष्टा भवन्तजुष्ट्रस्यो मतेन्द्रस्य ध्रुवमस्य इन्द्र मदेन्द्रायत्वा लगहनो वैष्णवान् घना वेदमहन्तं वलगमुद्ववामि यन्नः समानो यमसमानो निजखानेदवेन मृधरङ्करोभि यो नः समानो यमसमानो रादे गायत्रेण छन्दसा बबाढो वरशक्तिमत्र भद्रं तन्नो सह विराड जिगपत्रहा सम्राणजिभ्राज्यः स्वराणस्यभिमाजिहाविश्वाराणजिविश्वादान्नाष्टाणा हन्ता रक्षो हण बलगहन प्रोक्ष्यामि वैष्णवान् रक्षो हन परस्त्रणामि वैष्णवे रक्षोहनो बलगहनो वैष्णवे बृहन्नजि बृहद्रा वा बृहदेन्द्राय वाचं वदा प्रवाहनामन्धिरवाहन स्वात्राप्रचेदा विश्ववेदािरधिरम्भारिवस्तुर चितुस्वान्ध्योयसम्रालत्यह व्यसोदरब्रह्मज्योतिरर्धा माजो बुद्धिज्योतौ धारि गण पारिवाग् गुण्डि